श्रीमद्भागवत् महापुराणं दशं स्कन्ध त्रीपञ्चाशत्तमोऽध्यायः तमागतं समाज्ञाय वेदर्भि हृष्टमानसां न पश्यन्ति ब्राह्मणाय प्रियन्मन्यन्न नाम सा प्राप्तौ श्रुत्वा सुदुहितू रुद्वाहप्रेक्षणोऽसुखौ अभ्ययातुर्यघोषेण रामकृष्णो समर्हणे मधुपर्कमुपानीय वासांसि बिरजांसि स उपायनान्यभीष्टानि विधवत् सम्पूजयत् तयोर्निवेशनं श्रीमन् उपकल्प्य महामतिः ससैन्ययोशानुगयो आतिथ्यं विदधेयथा एवं राज्ञां समेतानां यथा वीर्यं यथा वयः यथा बलं यथा वित्तं सर्वैः कामै समर्हयत् कृष्णमागतमाकर्णविदर्भपुरवासिनः आगत्य नेत्राञ्जलिभि पपुस्तन्मुखपङ्कजम् अस्यैव भार्या भवितुं रुक्मिण्यर्हसि असावप्यनबद्यात्मा भेस्म्या समुचितपतिः किञ्चित् सुचरितं यन्न तेन तुष्टोकक्रीम् अनुगृह्णातु गृह्णातु वेदर्भ्यापाणिमच्युतः एवं प्रेमकला बद्धा वदन्ति स्म पुरौकश कन्या चान्तपुरात् प्रागाद्भटैर्गुप्ताम्बिकालयम् पद्भ्यां निर्ययौ द्रष्टुं भवान्यापादपल्लवम् सा चानुध्यायति सम्यग् मुकुन्दचरणाम्बुजं यत्माङ्मातृभिः सार्धं सखिभिः परिवारिता गुप्ता राजभटै शूरैः सन्नद्धैरुद्यता युधैः नृदङ्गसङ्खप्रणवास्तुर्यभेदस्तितग्निरे नानोपहारबलभिर्वारमुख्या सहस्रश स्रग्गन्धवस्त्राभरणैः द्विजपत्न्यः स्वरंकृताः गायन्तश्च स्तुवन्तश्च गायका वाद्यवादका परिवार्य वधुं जग्मू सुतमागतवन्दिनः आसाद्य देवी सदनं धोतुपादकराम्बुजा उत्पत्पश्र्यस्य शुचिशान्तां प्रविवेशाम्बिकान्तिकम् ताम्बै प्रवयशो बालां विद्याभिप्रयोषितः भवानीं वन्दयाश्चक्रुर्भवपत्नी भवान्विताम् नमस्ते त्वाम्बिके भिक्षं स्वसन्तानि तां भूयात् पतिर्मे भगवान् कृष्णदशं तदनुमोदताम् धूपै अद्भिर्गन्धाक्षतैधूपैर्वास संमाल्यभूषणैर्नानोपहारबलिभिः प्रदीपावलिभिः पृथक् विप्या स्त्रियः पतिमते तथा तैः समुपूजयत लवणापूप ताम्बूलककण्ठसूत्रफलेक्षुभि तस्यै स्त्रियस्ताप्रदोषेषां युजोराशिष ताभ्यो देव्यै नमश्चक्रे शेषां च जगृहे वधू मुनिव्रतं मथतक्त्वा निश्चक्रा तां देवमायामिव वीरमूषिनीं सुमध्यमान् कुण्डलमण्डिताननां श्यामां नितम्बार्पितरत्नमेखलाम् व्यध्यस्तनीं कुन्तलशङ्कितेक्षणां शुचस्मितां बिम्बफलाधरद्युती सोढायमानद्विजकुन्दकुण्डमलाम तदा चलन्तीं कलहंसगामुनिं शिञ्जत्कलानुपुरधामशोभिनां विलोक्यवीरा मुहुमुषमागता यथास्मिन् तत्कृतहृद्ययार्जिता ज्ञां वीक्षते निपतय तद्वारधास व्रीडावलोकहितचेत उज्झिता स्राह ते तु क्षितौ गजरथा स्वगता विमूढा यात्राच्छलेन हर्यर्पयतिं शशोभां शैवं शनैश्चलयति चलपद्मकोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणाम् जहेर उत्सार्यवामकरजहैरलकानपाङ्गैः प्राप्तां श्रियैक्षत निपान्ददिसेच्युतं तां राजकन्यां रसमारिदृक्षतिं जहारकृष्णो द्विषतां समीक्षताम् रथं समारोप्य सुपर्णलक्षणं राजन्यचक्रं परिभूय माधवः ततो ययौ रामपुरोगमयि शनैः सुगालमध्वादिवभाग्रीद्धरिः तं मालिन स्वाभिभवं यशक्षयं परे जरासन्दवशानशेहिरे अहोधिगस्मान् यश आतधन्वनां गोपैर्हितं केसरिणां मृगैरिव ते श्रीमद्भागुते महापुराणे पारहिंसां शयितायां दशमस्कन्धे उत्तरार्धे रुक्मिणीहरिणं नाम त्रिपञ्चाशत्तमोऽध्यायः